गणेशपुराणं क्रीडाखण्डम् अध्ययम् 84 मासे द्वितीये गौरी तं सायमभ्यज्य बालकं स्थापयामासदोलायां गायति स्म मुदा बहु तावदाको समायादौ तौ क्षेमकुशलौ दैत्यौ तद्वधा काङ्क्षिणावुभौ न कदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गदौ युध्यन्तौ पालनाभ्यासे स्फुरदङ्गुरुहौ कलौ ययो चीत्कारशब्देन श्रुदयो बधिरीकृताः पादाकादेन भूसर्वा सर्वा कृदक्षेत्र समाकृता यदो यष्टिं गृहीत्वा सा भीषयामास तावोभौ यनपरौ चो भावौ तदा युध्यन्दौ पतितौ कौरौ बालको बाकोपरीताबू उजस्तलाखादा कृत्वा बुबुे बालाकोत्तम कृवा कर्कशब्दी तिवा बाल भस् सल सीति तदा का तादुभौ नष्टजीवितौ पतितावधः वमन्दौ रुधिरं वक्त्रा दृष्ट्वा भ्रान्दा शिवा भवद किञ्चिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा मोक्षं जग्मधुराखाताद्गणेशकरसम्भवाद् तद्देहौ पतितौ घोरौ दशयो जनविस्तृतौ कोलाहलो महानासीद्दृष्ट्वा देहौ तथागतौ गणानां च सखीनां च पार्वत्या सुमहांस्तदा विध्वस्ता आश्रमावृक्षाः पर्वता भुवनानि च पदद्भ्यां तच्छरीराभ्यां निर्जीयाभ्यां महान्त्यपि चित्वा चित्वा तु तद्देहौ गणा निन्योर्बहिस्तदा पार्वतीभयवित्रस्ता बालमादाय सत्वरम् पाययामास स्तन्यं बालकवत्सला ऋषिपत्न्यः समायादा पार्वतीमुचिरेण काः पुण्यं महत्तु ते गौरी येन विघ्नं विनश्यदि द्विमासिकेन बालेन हदौ दुष्टौ महासुरौ अग्रेत्रिभुवनेनेन त्रिभुवनेन सदृशो न भविष्यति मादाराक्षसभूरत्र यत्नकार्यशिशा विह नेष्यन्ति राक्षसागुप्ता परे क उवाच एवमुक्त्वा गदा तु समुचिरे देशिवे बालो हनिष्य दिने दिने अस्तुका बहिकार ततस्तु मुनयो जम्मू रक्षा चक्रुराधाभक दानानि सा विससर्ज प्रणम्यता तद तृदय मसे दुस्वस्व कार्यरते जने पार्वदी मध्या पावतीबा गृही मंचक सुप्ता काज्यांदरे का चक्रु काश्चिद्वारि वार्तामेदस्मिन्नन्तरे सुरः कूराख्यश्चोदुवेषेण विवेशगिरिजालयं वञ्चयित्वा लोकदृष्टिं स्वे दुष्टो महाबलः स निरीक्ष्य शिवां जहृषे मनसा तदा यावन्निद्रादिगिरिजा तावन्नेष्ये शिशुं त्वहं लाखवान्मञ्चकारूढो बालमादायमस्तके मञ्चकाधः पपाताशु चुक्रोश बालकस्तदा तदप्रबुद्धा गिरिजा बिडालास्य गतं शिशुं निरीक्ष्य धावधा वेदि प्राकोषद्भयविह्वला निमील्यनयने मूर्छा मगाद्दुःखेन भीदितः कण्ठे दशदि तावद्बालो दधारतं कर्णयोरुभयोर्दोर्भ्याम् स्वभावात्पादताडनाद न्यपादयच्छिरो देशे मञ्चकाधो महासुरं सभिन्नहृदयोर्धावत् बहिर्गत्वा पपातः महावादेन वृक्षात्तु पक्वं किञ्चित् फलं यदा दुर्गन्धं रुधिरं तस्य पदिदं धरणीतले आच्छादयन्नासिकां सा गिरिजा शोकविह्वला आदाय तस्मै प्रादात्सा स्तनपानं शिष्योस्तदा आगदा बालशब्देन सर्वास्ता परिचालिकाः पृशनिस्म तंगा प्रत्येक कौतुकान्ता अजरामरता निश्चिमसा सदुर्घो बिड़ा लोभूद्वादशयोजन कियतचूर्णिता सख्य कियरिचारिका गणाश्चैव समाया दावोधं दृष्ट्वा तथाविधम् आश्चर्यं परमं चक्रोर्बालकस्य पराक्रमे क्व दैत्यो मायिको दुष्टः क्व बालचरणाहदिः इन्द्रादीनामवध्याये हन्येन लीलया युक्त्युक्त्वाज्ञां गृहीत्वा दे गणायादा निजं पदं केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः कडिदेशे गृहीत्वैनं साविशन्निजमन्दिरं ततश्चुतर्थे मासेतु मुनिपत्न्यः समागताः ग्यद्रव्याणी गृहीतरगैरव अबला सबालास् पार्वत्या मुभम शुभं सन सत्कारा दद दाक्षाणी तदा नमस्करी कटौ बच परस्परं समर्चन्त्यां हरिद्राकुङ्कुमादिभिः भूमौ संस्थाप्य बालानि गतिमन्द्यगदीनिची पार्वतीयस्तदस्ते शुक्रीडते स्मापि बालकः तेन सर्वे शुशुभिरे शशिनोडुगणो यथा दृष्ट्वा दामुनि पत्न्यस्तमूजोर्गिरिसुदामिति धन्यासि गौरिपुत्रेण शिवदत्तेन भास्वदा तव बालस्य सान्निध्याद्भासन्तेनोऽपि बालकाः निधिसङ्गेन हेमत्वं लोहेनापि समाप्यदे। एवं कौतुकयुक्तास्ता आनर्त्युश्च परस्परं हरिद्राभिकुङ्गुमेक्षु खण्डचन्दनघृञ्जकैः तिलैर्गुडैस्तालपत्रैर्नाना परिमलैरपि काश्चिदङ्गे हरिद्रां च मुखेषु च लिलिम्बिरे एतस्मिन्नन्तरे दैत्यो नाम्ना बालासुरो महान् बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ चिक्रीडपार्वतीयेन युध्यन्निव विनोदः यथा सिंहेन क्रोष्टादौ महेशो वा गजेन च कण्ठेन कण्ठं संकृष्य पेददुर्भुविदारुणौ मस्तके चरणाभ्यां सोऽहनद्दुष्टो गजाननं कचादानाय हस्ताभ्यां विचकर्षबलादमुं स्वयं च गर्जदे दुष्टो वृद्धकोष्ठनिशि दृष्ट्वा तथा विधौ तौ सा गिरिजप्राहता स्त्रियः कस्य हर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम क्रन्दते सौखर इव प्रहरे प्रहरे खलः अर्भकाणां स्वभावोऽयमेत्युपेक्षितवत्यः सौ तौ दुभूमिगौ बालौ लुण्ठदस्मानुवत्सलौ धृत्वा परस्परं केशानाकर्षन्तं च सर्वशः हसन्तौ हासयन्तौ हा च बालकांश्च मुनिस्त्रियः जानन्नपि महादैत्यं खेलति विनायकः तदो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरं जीवग्राहं कण्ठदेशे दधारगणनायकं तथा तं सोऽपि रुद्धश्वासो सुरो भवद विह्वलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्त्रियः ययुश्च चक्रुशोर्बालो निखतो नेन निश्चितं धावमाना ययुः काश्चिन्नाशकन्मोचिदुं हितौ स्त्रियश्च पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् ऊचुर्विमोचयैनं त्वं मुनिपुत्रो मरिष्यति तद सा पार्वती बालं मुञ्जमुञ्जेदि अस्मिन् मृदे मुनयो नस्तपोन्विताः जीवधानात् परं पुण्यं नास्ति ब्रह्माण्डगोलके गमिष्यदि महाशक्रिस्तव तेषां तु शापतः क उवाच एवं यावत् प्रार्थयदे गिरिजा तावदेव हि नेत्रद्वारेण तत्प्राणागदा बुद्बुधवत्क्षणाद् ददृशुस्तं तदसर्वे दशयोजनमायदं करालवक्त्रं पदिदं चोर्णयित्वा महाद्रुमान् ततस्त्रियो ययुर्भीता बालमादाय सत्वराः वृकवृन्दं हि दृष्ट्वैव धेनवोजा यथा भयाद गिरिचापि स्वकं गृह्य भ्रामयित्वा सुतं मुदं दत्वा स्तनं कारयित्वा शान्तिकं द्विजभुङ्गवैः ददौदानानि तेभ्यः सा जगृहे आशिषो बहु न जाने आसुरीं मायां कियन्दो यान्दिनाशितुं ततस्ते विलयं यान्ति मम बालान्महाकलाः ईश्वरे सानुकूले कपीडितुम् क्षमते जनं क उवाच एवमाकर्ण्यतद्वाक्यं मुनिपत्न्यो ययुश्चे गणास्तं दुरधः क्षिप्त्वा स्नात्वा स्वं धामदेभिरे इति श्रीगणेशपुराणे क्रीडाखण्डे बालासुरवधो नाम चतुरशीतितमोऽध्यायः ओम्